शतं जीव शरदो वर्धमानशतं हेमन्दातमु वसन्दान् श॒तमिन्द्राग्निसविता बृह॒स्पतिः शतायुषाः विषेमं पुनर्दुः शतं जीव शरदो वर्धमानशतं हेमन्दातमु वसन्दान् शतमिन्द्राग्नि सविता बृह॒स्पतिशतायुषाः विषेमं पुनर्दु शतं जीव शरदो वर्धः धमानशतं हेमन्दातमु वसन्दान् शतमिन्द्राग्निसविता बृह॒स्पति शतायुषाः विषेमं पुनर्दुः